मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायम् 46 तारकासुरसामवर्णनं श्रीगणेशाय नमः विमद उवाच कैलाशे दैत्यपैर्योक्तः संस्थितो भून्मदासुरः कियत्कालं प्रभुञ्जानो भोगान् परमदुर्लभान् गदे कियदि काले च त्रिपुराद्यास्तमब्रुवन् देवानां छेदने दुष्टाः संसक्ता मदसंयुधाः त्रिपुराद्या ऊजुः शृणुराजन्महाभागमदासुरहितं वचः देवाः शम्भुमुखाः सर्वे शक्तिलोकं गदा तत्र शक्त्या विशेषेण मानिता सुरसत्तमाः भयहीना सुखे सक्दा भो भुजोर्विविधं सुखम् अस्माकं शत्रवः सर्वे देवा दैत्यमदा सदा दैत्यानां कदने सक्दा समर्थाश्चेन्न संशयः हिरण्याक्षादय सर्वे सुदिदा देवपैः पुरा छिद्रदर्शनसंयुक्तैरस्माकं तैर्विशेषदः सर्वत्र ख्यातिमत्यन्तं जानन्ति सकला जनाः देवानां वैरिभावं च परस्परवधेरथम् अस्माकं शक्तिरत्यन्तं वैरिभावे प्रवर्तिता मान्या तदपि दैत्येन्द्रदेवानां साहितेरदा अधशक्तिपुरे स्वामिन् गमिष्यामो न संशयः हनिष्यामोमरान् सर्वान् वैरिभावं समाश्रिदान् दैत्यानां वचनं श्रुत्वा प्रदापी स मदासुरः उवाच तान्महादैत्यो विनयेन समन्वितः मदासुर उवाच शृणुध्वं त्रिपुराद्या मे वचनं हितकारकं शक्तिप्रसादसम्भुतमैश्वर्यं सकलं च मे इष्ठा देवी मदीया सा तां भजामि विशेषतः अधस्तस्याहितं मान्यं कर्तव्यं सकलै सदा तां च देवा ययुः सर्वे शरणं नात्र संशयः दासभावेन यन्द्रिता शक्तिरादराद देवानां पक्षपादेन सह तैर्नागदा भवद अस्माकं तु बधार्थाय महामाया दानवाः अतः प्रभञ्जने तस्या असक्ता ये ते सम्मान्या मया नित्यमा वैरं कुरुता मदासुरवच श्रुत्वा दैत्यपाष्टं पुनर्जगुः क्रोधयुक्ता मदोत्सिक्ता देवानां तु वधेरताः दैत्येशाचुः मदासुरशृणुस्वामिन् पुरावृत्तं कथानकं हिरण्यकशिपुः प्रोक्तो ब्रह्म लब्धवरो महान् अभवन् बहवश्चान्ये दैत्ये स्याद् देवशत्रवः देवपक्षाश्रयं सर्वे त्यक्त्वा स्वं धर्ममाश्रिताः कश्यपश्य सुदौ चैव तावुभौ देवसंश्रयं त्यक्त्वादु देवसंहारे दैत्येश्यौ तत्परौ पुरा अधस्त्वयापि कर्तव्यं देवानां मूलनाशनम् असुराश्च सुराः प्रोक्ता वेदेऽपि च विरोधिनः शक्रिलोकं गमिष्यामो भक्तियुक्ता वयं प्रभो देवास्तान्निर्दलिष्यामः खलु शक्तेः प्रसन्निधौ यदि शक्रिर्महामायास्माकं पक्षं समाश्रिता तदा तां पूजयिष्यामः कुलदैवतमादराद अन्यथा योधयिष्यामो वयं शक्रिया संशयः शत्रुपक्षाश्रितां ज्ञात्वा नात्र दोषः प्रवर्तते दैत्येशानां वच दुर्मदिस्स मदासुरः तदेदि सत्यमत्यन्तं मानयामास दैत्यपह तदैव दैत्यसंयुक्तो य हौ लोकं मदासुरः शक्तेश्च सन्निधौ दूतं प्रशयामास दुर्मदिः तारकं प्रचगा दासौ गच्छ देवीं महाबल सामयुक्तं वदाशुत्वं महामायां महासुर तम् प्रणम्य ययौ विकाच्छक्रे सन्निधिमादराद तारगो मानितस्तैस्तु देवैः परमदारुणः न त्वा महामायां कृताञ्जलि कुडोऽसुरः तारकस्तामुवाचाथ सामयुक्तं वजकलः तारकासुर उवाच शृणुशक्ते महामाये आगतः स मदासुरः दर्शनार्थं च देमादस्तेनाहं प्रेषितोऽधुना तेनोदितं च शक्रे त्वं वचनं शृणुमानदे भक्तेन भक्तिसंयुक्तं भावज्ञे जगदम्बिके अस्माकं कुलदेवी दुत्वमेवात्र न संशयः असुराहि हि वयं सर्वे त्वदीया सेवकामदाः यत्रा सुरा विराजन्ति सुरास्तत्र भवन्ति नात्र सन्देहस्वभावाच्छत्रवो मदाः अदो देवान् समुत्सृज्य तिष्ठत्वं पूजितासुरैः अस्माकं शत्रवो देवास्त्वदीया शत्रवो मदाः प्रणमन्दो वयं यावत् तावद्देवनिकृन्दनं करिष्यामो न सन्देहस्तस्मान्मादस्त्यजाश्युतान् एकं पक्षं समाश्रित्य तिष्ठत्वं जगदम्बिके असुराणां सुराणां वा पूजिता सततं परे इत्येवं कथितं देवि मदस्य वचनं मया कुरुत्वं भक्तराजस्य पालनं परमादराद गृत्समद उवाच मदस्य वचनं क्रूरं तारकेण प्रकाशितं तच्छ्रुत्वा कुपिता देवी तं जगाद महासुरं शक्तिरुवाच मदीयं जगदम्बेदि नाम वेदे प्रकाशितं केन मार्गेण दैत्येश पक्षमेकं समाश्रये यथा देवास्तथा दैत्या मान्या मे नात्र संशयः देवैर्दैत्यैश्च कर्तव्यस्वस्वधर्मो महासुर पादाले राज्यमानन्दाद्दैत्यै कर्तव्यमञ्जसा स्वर्गेषु सर्वदा देवै कर्तव्यं स्वस्वभावचम् विपरीतेहनिष्यामि क्रुद्धासं नात्र अदो अधो दैत्यैः प्रगन्तव्यं वै मदाज्ञया शक्तेर्वचनमाकर्ण्यक्रुद्धसोऽपि महासुरः उवाच तां महाशक्तिं भयं त्यक्त्वा प्रभावदः तारक उवाच मा गर्वम् कुरु शाक्ते त्वम् शत्रुपक्षसमाश्रुते तपसा वयमुत्कृष्टा जातास्वस्य न संशयः कर्मणा त्वम् प्रसृजसि जगन्धिजगदम्बिके कर्माधीनमिदम् सर्वम् तत्र त्वम् किम् करिष्यसि कर्मणा दैत्यराजश्च प्रदापी मदासुरः ब्रह्माण्डाधिपतिर्भूत्वा देवान् सर्वान् हनिष्यति युद्धाय सज्जत्वं देवि देवैः सह जगन्मयि असुरैश्च महाभागैर्गच्छामि मदसन्निधौ एवमुक्त्वा महाशक्तिं तारकक्रोधसंयुधः जगाम शक्तिलोकाद्वै मददैत्यस्य सन्निधौ ॐ तत्सदि श्रीमदान्ध्ये महापुराणे द्वितीये खण्डे ये गदन्तचरिते तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः